भीम उवाच उदासिनो निरीक्षस्व न कार्यस्सम्भ्रमस्त्वया न पुनर्जीवेत् मद्बाह्वन्तरमागतः अर्जुन उवाच किमनेन चिरं भीम जीवतापाप रक्षसा गन्तव्येन चिरं स्थातुम् इह शक्यमरिन्दम पुरा संरज्यते प्राची पुरा सन्ध्या मुहूर्ते रक्षांसि प्रबलानि भवन्त्युता क्रीडा जहिरक्षो विभीषणम् पुरा विकुरुते माया भुजयोः सारमर्पया वैशम्पायन उवाच अर्जुनेनैव मुक्तस्तु भीमोरोषाज्ज्वलन्नि वा